द्विपञ्चाशत्तमोऽध्यायः सौतिरुवाच ततः कर्म पर्यक्रामंश्च विधिवत् स्वे स्वे कर्मणि याचकाः प्रावृत्य रक्तलोचनाः जुहुबुर्मन्त्रवच्चैव समिद्धम् जातवेदसम् कम्पयन्तश्च सर्वेषाम् उरगाणाम् मनांसि च सर्पाना जुहुवुस्तत्र सर्वानग्निमुखे तदा ततः सर्पाः समापेतुः प्रदीप्तेः हव्यवाहने परस्परम् विस्फुरन्तः श्वसन्तश्च परस्परं परस्परम् पुच्छैः शिरोभिश्च भृशम् चित्रभानुम् प्रपेदिरे श्वेताः कृष्णाश्च नीलाश्च स्थविराः शिषवस्तथा नदन्तो विविधान्नादान् पेतुर्दीप्ते विभावसौ क्रोशयोजनमात्रा गोकर्णस्य प्रमाणतः पतन्त्यजस्रम् वेगेन वह्नावग्निमताम् वर एवम् शत सहस्राणि प्रयुतान्यर्बुदानि च अवशानि विनष्टानि पन्नगानाम् तु तत्र सुरगा इव तत्राण्ये हस्ति हस्ता इवापरे मत्ता इवचमातंगा च मातङ्गा महाकाया महाबलाः उच्चावचाश्च बहवो नानावर्णा विशोल्बणाः घोराश्च परिख प्रख्या दण्डशूका महाबलाः प्रपेतु रग्ना वृगा इति श्रीमहाभारते आदिपर्वणि आस्तिकपर्वणि सर्पसत्रोपक्रमे द्विपञ्चाशत्तमोऽध्यायः